अथ सप्तमकांडे द्वितय प्रश्न प्रारंभ मायेतकं षट् प्रार्थ्यन्दमाहरन्तेना यजन्तै देशवर्गं लोकमायमय एवं विद्वागं ऋष्यट्रात्रमासदे सुवर्गमेव लोकं यन्ति प्रचतिष्ठन्ति प्रचतिष्ठन्ते श्रुतिताभ्यामेव स्वर्गं लोकयन्ति ते च एवावृन्दे पञ्चदशो भवतीन्द्रियमेवावृन्दते सप्तदशो भवत्यन्नाद्यस्यावृद्ध्या अधो प्रयुदेन जायन्त चैत्रे श्रीघुषो भवति प्रदिष्टवर्गस्य लोकस्य प्रदिष्टाञ्जो यास्वत्यायानः यान्यवर्त्यमेवान्यस्मिन् प्रदिशत्य प्रतिष्ठां गच्छन्ति यदा दशशतं गर्वञ्जलदैकमुत्थानको शतायुग् पुरुषस्वतेन्द्रियायुष्येवेन्द्रिये प्रतिष्ठन्ति यदा शतको सहस्रं गर्वञ्जलदैकमुत्थानको सहस्रसंयतो वा सौ लोको मे लोकमभिजीन्द्रिय प्रमीयत यदा वाजीयरन्नदैकमुत्थानं तद्धतीर्थम् कुशरविन्द औदालकिरकामयुषमान् श्यामि सप्तरात्रमाहरतेना यजत तेन वैशयावन्तं विद्वान् सप्तरात्रेण यज ते यावन्त एव ग्राम्याशस्तानेवावृन्दे सप्तरात्र भवति सप्तक्राम्या कुशवस्सप्तारण्या सप्तसिन्धागस्य तेज एवावृन्दे पञ्चदशो भवतीन्द्रियमेवावृन्दे सप्तदश जायते एकविंशोऽनाद्यस्यावर्त्यैश्वपृष्ठाद् रात्रभवत् सर्वस्याभिजित्यै यत् प्रत्यक्षं पूर्वेश्वहस्तु पृष्ठान्यपेयप्रत्यक्षं विश्वजति यथा दुभ्यामपेदत्येवोत्तमस्यान्यैकरात्रश्च नोर्वेश्व वरथम् तरमतो बृहदाभ्यामेव नयन्त्यनयोरेव प्रतिष्ठम् दियत्प्रत्यक्षम् विश्वजितपृष्ठान्य वयम् दियदाप्रतादृगेव तत् बृहस्पदगामय ब्रह्मवर्त्य एतमष्टरात्रपस्यत्तमाहत्तेना वैदब्रह्मवत्यस्य एवं विनष्टरात्रेण इददे ब्रह्मवत्यस्यैव भवत्यष्टरात्रो भवत्यष्टाक्षरा गायत्री गायत्री ब्रह्मवर्त्यसङ्गायत्र्यै ब्रह्मवर्त्य समवृन्धेष्टरात्रो भव चदस्रो वैदिशतस्रोगान्धरदिशादिव्यव ब्रह्मवर्त्यसमवृन्धे त्रिविदग्निष्टोमो भवत्येन एवावृन्धे पञ्चदशा भवतीन्द्रियमेवावृते न्द्रप्तदश भवत्यंश भवति प्रतिष्ठत्यंशैराजित् सर्वपृष्ठति सर्वस्याभिजित्य प्रजापरि प्रजासृजता सृष्टाः क्षतंवरात्रमपश्यत्तमाः रक्तेना यज ददीपने यदि प्रजाः क्षतं निगच्छेस्तर्हि नवरात्रेण यजे देवीः वा एतासाधिताः क्षतं निगच्छन्ति मानैवाभ्यो लोकान् कल्पयितान् कल्पमानां प्रजाभ्यो न कल्पते कल्पन् ये स्मां प्रजाः ददाचित्र रात्रे नैवं लोकं कल्पयति क्षंत्रे नाम लोकयुता गुणे गुणमन्वस्यमेव तल्लोके लोकमन्वस्य ऋत्या वायुरेष्वेव लोके प्रतिष्ठन्त्रं प्रजानाहङ्गति नवरात्रो भवत्यपि गौरवमेवास्मिन् तेन तदा ज्योगामया भी स्यात्सलवरात्रेण यदेतत् प्राणाहि वा एतस्यादृता अधीतस्य ज्योगामयिति प्राणानेवास्मिन् दादा रोगे नीतासवदजीवत्येव <s> प्रजापदृकामयत्प्रजाय येदश एतदश होदारमपश्यत्तमजु दशरात्रमभृतेन दशरात्रेण प्राजाय दशरात्राय दीक्षिष्यमाणो दश होतारं जुह यादश हात्रैव दशरात्रमृतैदेव दशरात्रेण प्रजाय देवी राजो वा एष एवं वृत्तान्तशरात्रेण इजदेव राजमेव गच्छति प्राजाभज्यो एवं वृत्तान्तशरात्रेण यजदेव प्रैवजाय इन्द्रो वै सदं एवं विद्वान्तशरात्रेण त्रिवसमानानां भवतीपञ्चरसो रात्रेण इजेतदेव पुरा एव वर्यो हेदस्य नगरश्रमवा व्याधो भवता सन्ते देवा एतादेव पुरा अपि शरात्रयोगदश्रमवा व्याधोभवन्तां स्यात्सदशरात्रेण इजेतदेव भवति स्तोमस्ता एवावृन्दे पञ्चदशमेवावृन्दे त्रिवैश्वदेवीषु पुष्टिमेवावृन्दे सप्तदश प्राजाभृत्या जायत एकविवंशभुक्त्यः सौरेषु प्रतिष्ठित्या औजुमेवात्मन्धत्यः प्राजाभक्त्याै त्रैस्त्रिवंशभक्त्या वैश्वदेवेषु प्रतिष्ठित्यै विश्वजित्सर्वपृष्ठात्रा भवरसर्वस्याभिजित्यै ैः प्रजाकामा प्रजान्नाविन्दते कामयन्द प्रजानुसृजे प्रजामवन्धेमिह प्रजा प्रजानन्दस्यामेकादश रात्रमपश्यन्तमाहरन्ते प्रजामसृजन्द प्रजामवारुन्ध प्रजाम प्रजानन्दो भवन्तं वा एते पुत्रास्तस्मादा तवा उच्यन्ते एवं एकादश रात्रमासदे प्रजामेव सृजन्ते प्रजामव रन्धरे ी गायत्रं ब्रह्मश्चत्वारिजुश्चत्वारिन्द्रिये प्रतिष्ठन् ष्टाचत्वारिंशदक्षरादिगति जागतात्सरे प्रतिष्ठाय प्रजाय ऐन्द्रवायवाग्रान् गृह्णी यादृशः कामयेद यथा पूर्वं प्रजाः कल्पे रण्यति यज्ञस्य वै कृत्यमनप्रजाकल्पन्य यज्ञस्याकृत्यमनकल्पं जयथा पूर्वमेव प्रजाकल्प्यै्यायागुं सङ्कनि यानि क्रामत्येन्द्रवायवाक्रान् यामिनः प्राणेन स्यामयति प्राणेन्द्रवायव प्राणेनैवैनको समर्थयितु मैत्रावृणाग्रां गृह्णी ऋणयेषां दीक्षितानां प्राणापानाभ्य प्राणापानो मित्रा वृणो प्राणाग्राभरो देवानामानुजा भो वा क्रम्बैना वेदस्य देवतायानुजाैरमक्रम्भरिणग शुक्राग्रान् गृह्णीतगतश्रीष्टागामोहो वा आरित्यशुक्र एषान्तान्तं मनुष्यश्रीमत्तदेवान्त एतज्ञात्रं मृत्युदेवेन ग्राहयते यस्य पितापिता महापुण्यस्या इन्द्रियेणर्थते यस्य पितापिता महापुण्य भवत्य सदन्न प्राप्नोत्करैवेन समर्थयति नृच्छाग्रां गृह्णीता सर्वेषां वा एतत्पात्राणामिन्द्रिय पात्रेणैवैनमिन्द्रिये त्येव पूर्णानुग्रहानुज्ञानवृष प्राणानुवा एतर्हि प्रजानागोच्यवृषति प्राणाग्रहा प्राणानेव प्रजानागोचामुञ्चति तादिप्रवर्षति यत्र वा एन्द्र वा यो गायत्रं प्रायणे यम हस्तस्मात् प्रायणेहन्न इन्द्र वा यमा दृष्यते स्व एवेन मायतनेना ऋत्रैष्टै शुक्रत्रैष्टवन्मा तृतीये शुक्रा दृश्यते स्व एवेन गृह्णा कृतस्मा तृतीयेऽहन्ना प्रेण दृश्यते स्व एवमाय गृह्णात्येतस्मेच्छन्दागस्यात्मो ऋजता यत्रैव न्दत एव रात्रो जागताक्रीणोहन्नाक्रीणो दृश्यते स्व एवेन मायुधं नामेवन्दोयावृत्तरो वायैन्द्रवायव राधं दरं पञ्चमहस्तस्मात् पञ्चमेहन्नेन्द्रवायवृष्यते स्व एवेन मायुधनेयं शुक्लवार्हतो षष्ठमहस्तस्माष्टेऽहं शुक्लोष्यते स्व एवेन मायुधनेयं यत् शुक्र्व गृह्यते यत्रैव यज्ञमधुशेन पुनप्रियं रात्रेष्टुक्रामे शुक्र गृह्यते स्वयेवेन मायुधने गृह्णात्यधास्वमेव छन्दोर्तन देवाग्स्तस्मादष्टमेहन्नाग्रयण गृह्यते स्वेन मायुधने गृह्णाति प्राणो वा ऐन्द्र वा इव प्राणानवमास्तस्मान्नवमेऽहन्नैन्द्रव गृह्यते स्वेन मायुध गृह्णात्ये द्वि द्वितीय च्छन्दा यदीन्द्र वायवस्व गृह्यते यत्रैव यज्ञवधन्द्रेन्द्रवायवाज्यन्ते धामपि वहन्ति तादृगैवच्छन्दागस्यम्यान्यस्य लोकमभ्यध्यायन्ता ैव देवाव्यवाहेन्नन्द्र वा यवश एतदायतनन्यच्च दत्तमहस्तस्मिन्नाग्रेण तस्मादाक्रेण स्वायुतनेन अमेऽहन्नैन्द्र वा यवृक्ष्यते शुक्रस्य वा एतदायतनन्यत्पञ्चम हस्तस्मिन्नैन्द्र वा योगृह्यते तस्मादेन्द्र वा यवस्यायुतमे सप्तमेहं शुक्रावृत्यदाक्रेण एतदायतनन्यच्छमहस्तस्मिन् शुक्रावृक्ष्यते तस्माच्छुक्रस्यायतनेष्टमेहन्नाग्रेण वृक्ष्यते छन्दाग्रस्यैव दद्विवाहय शुक्रवस्य सो विवाहम् एवम् वेदासो देवताभ्य वे एव यज्ञ संवितम् ददाति तस्मादिरन्योन्यस्मै ददाति प्रजावजरकामयेदप्रजा ये स एकद्वादश रात्रौ रतेना यज प्राजाय यः कामयेदप्रजा ये चत्वादश रात्रेण ये प्रयुवजाय दे ब्रह्मवादिना यज्ञात्रिवादरात्रौनिके रात्रोर्वप्रयुज्य यो वै गायत्रीं ज्योतिष्पक्षां वेद ज्योतिषा भाषासु वर्तन् लोकमेधिष्ठोमौ वक्षो यन्तरेष्टात् ज्योतिष्पक्षाय ज्योतिषा भाषासु वक्तं लोकमेध प्रजापधर्वा एष द्वादश द्वादशया वक्षो यन्तरेष्टात्मा प्रजापधर्वा वैश सन् एते प्रजानाम् प्राणैरासते ये सत्रमासुते तस्मात् पृच्छन्ति किमेते सत्रुणैः प्रियः प्रजानामुच्युतो भवति एवम् वेदा वा एषोऽन्यो वैश्वानरस्वर्गाय लोकाय प्राभव एष आदराष् एवं विद्वान्वादशाहेन वसन्ताय प्रायच्छद्यो माश्चे मन्दिर सुराभ्याम् ेनेन्द्रं प्रजापतिरयादिषु एव प्रजापति प्रजापतिर्वा वैश एष त्वै जायते यस्य Pineapple pineapple pineapple D줄, the evet. धा वा एतास्तिस्रस्य श्रोरात्र यद्वादशोऽपसदो यः प्रथमा यज्ञन्दाभिस्संभरिया यज्ञन्दाभिरारभतेया स्तुतीयापात्राणिदाभिर्निर्णैरिक्तेयाश्चेयो पशुमत्यमासयिपापं पुरी शकंसयाचं मध्यानपुंसय स्वमक्ष् हवारस्य चैर शून्या निष्व प्रतिगृह्णाधियोहे प्रतिगृह्णादि हे लणयाज्यम् आत्मना व्यावृत्ति एकस्मै स्वाहा द्वाभ्यागस्वाहा त्रिभ्यस्वाः चतुर्भ्यस्वाहा पञ्चभ्यस्वाहा षट्भ्यस्वाहा सप्तभ्यस्वाहाष्टाभ्यस्वाहा नवभ्यस्वाहा दशभ्यस्वाहि द्वादशभ्यस्वाः द्वादशभ्यस्वाः त्रयोदशभ्यस्वाः चतुर्दशभ्यस्वाः पञ्चदशभ्यस्वाः षोडशभ्यस्वाः सप्तदशभ्यस्वाः अष्टादशभ्यस्वाहि कान्वविंशत्य स्वाहा नवविंशत्ये स्वाहि कान्चत्वारि विंशदे स्वाहा नवचत्वारि विंशदे स्वाहि swaha narvasashti swaha kanna gitte swaha narvasiti swaha kanna sudaya swaha sudaya swaha advakya gunchatav khavasmah sarvaspri swaha एकस्मे स्वाहा क्रिभ्य स्वाहा पञ्चभ्य स्वाहा सप्तभ्यस्वाः नवभ्यस्वाहे एकादशभ्यस्वाहादशभ्यस्वाहा पञ्चदशभ्यस्वाः सप्तदशभ्य स्वाहे कान्नविवंशत्ये स्वाहा नवविंशत्ये स्वाहि कान्मचत्वारि विंशते स्वाहा नवचत्वारि विंशते स्वाही कान्नषष्ठे स्वाहा नवषष्टे स्वाही कान्नाजीते स्वाहा नवाजीत्ये स्वाही कान्नशताय स्वाहा शताय स्वाहा सर्वस्मे स्वाहा ज्ञां भ्यागस्वाहा चतुर्त्यस्स्वाहा सप्तस्स्वाहा अष्टाब्स्स्वाहा दशब्स्स्वाहा द्वादशस्स्वाहा चतुर्दशस्स्वाहा षोडशस्स्वाहा अष्टादशस्स्वाहा विघूषकते स्वाहा अष्टानोत्ते स्वाहा सदायस्वाहा सर्वस्मिस्वाहा त्रिभ्य स्वाहा पञ्चभ्यस्वाहा सप्तभ्यस्वाहा नवभ्यस्वाहि द्वादशभ्यस्वाहा त्रयोदशभ्यस्वाहा पञ्च ऋषड्भ्यस्वाहा सप्तषड्भ्य स्वाहे कान्नविवंशत्ये स्वाहा नवविंशत्ये स्वाहै काह्नचत्वारिविंशदे स्वाहा नवचत्वारिविंशदे स्वाहि कान् षष्ठे स्वाहा नवषष्ठे चतुर्भ्य स्वाहा द्वादशभ्य स्वाहा षोडशभ्य स्वाहा स्वाहा षण्णवत्ये स्वाहा सुधाय स्वाहा सर्वस्मे स्वाहा पञ्चभ्य स्वाहा दशभ्यस्वाहा पञ्चदशभ्य स्वाहाः विनोदत्ये स्वाहा पञ्चनवत्ये स्वाहा सुधाय स्वाहा सर्वस्मे स्वाहा दशभ्य स्वाहा विगुसक्ते स्वाहा त्रिपुंसदे स्वाहा जत्वा ऋगुशरे स्वाहा पुंजासुरे स्वाहा षष्टे स्वाहा सप्ते स्वाहा शीते स्वाहा नवत्ये स्वाहा सदाय स्वाहा सर्वस्मे स्वाहा विवसते स्वाहा जत्वा ऋगुंसरे स्वाहा षष्टे स्वाहा शीते स्वाहा सदाय स्वाहा सर्वस्मे स्वाहा anjasade smahasidasahadvakhyagunsadahvyagsvaha atrivsade bisvajuvsvade bisvabanjavsade bisvahasmidasade bisvavastade bisvaha astaksvade bisvahanavavsade bisvahasahasrasvaha sarvasmeivaha स्वाहा सहस्रा स्वाहा युता स्वाहा नियुता स्वाहा अद्भुता स्वाहाद्भुधा स्वाहा समुद्रा स्वाहा मुध्या स्वाहा अन्दा स्वाहा पराद्धा स्वाहो लोका इति सप्तमकाण्डे द्वितीयः